कृष्णयजुर्वेदे क्रमपाठे षष्ठकाण्डे तृतीयः प्रश्नः प्रारम्भः चात्वाला धिष्ण्यायधिष्ण्यामुपा उप उपदि उपदि योनिः योनिर्वै चात्वालम् चात्वालम् यज्ञस्य यज्ञस्य श्रियोनित्वाय श्रियोनित्वाय देवाः श्रियोनित्वाय सुयोनित्वाय देवा यज्ञम् पराजयन्देन्द्रम् आज्ञात्मनः आगेधात् पुनरपेद्वै विवेदस्य अपराजदृत्यपराजतम् आज्ञेर्ध्वर् आज्ञे ध्रविग्नेयुद्धम् धार् आज्ञाधिष्यान् आगेल् धावित्याग्ने गी गी विहरतीति विहरति यदेव एव यज्ञस्य यज्ञस्यापराजितम् अपराजितम् ततः अपराजितमित्यपराजितम् तथैव एवजित्य पराजित्येव पराजित्येति पराजित्य इव खलु खलु विन्ति यन्ति ये ये बहिष्वोमानम् बहिष्पोमानकम् सप्तन्ति बहिष्ठोमानमिति बहिः उपमानम् सप्तन्ति बहिष्वमाने बहिष्योमाने स्तुते बहिष्वोमान इति बहिः ीन् आग्नित्यग्नी अग्नीन् विहर हरः सृणाहि स्रणाहिरोडाशान् पुरोडाशाकुम् अलङ् इति यज्ञम् यज्ञमेव एवापजित्य अभजित्य पुनः अभजित्येत्यपजित्य पुनस्कन्मानाः तन्मानायन्ति यन्द्यङ्गारैः अङ्गारीर्द्वे द्वे सवने द्वे इति द्वे सवने वि सवने इति सवने विहरति हरति शलाकाभिः शलाकाभिस्तृतीयम् तृतीयगम् सशुक्रत्वाय सशुक्रत्वायसोः सशुक्रत्वाय इति सशुक्रत्वाय अथो सम्भरति भरत्येव एवैनत् येन धिष्ण्याः धिष्ण्या वा, वा अमुष्मिन् अमुष्मिन्लोके लोके सोम् सोम सो, रक्षन् रक्षन्तेभ्यः तेभ्योऽधि अधिसोम् सोमा आहरन् तमन्ववायुन् अन्ववायन्तम् अन्ववायन् इत्यनो अवायुन् तम् परि पर्यविशन् एवम् वेद वेदविन्दते विन्दते परिवेष्टारम् परिवेष्टारन्ते परिवेष्टारि परिवेष्टारम् ते सोमबीधेन सोमबीधेन वि सोमबीधेनेति सोमबीधेन या आर्भ्यन्त आर्भ्यन्तते ते देवेषु देवेषु सोमवीथम् सोमीकैच्छन्त सोमीकमिति सोमावीम् देवाः देवा अब्रुवन् द्वे द्वे द्वे द्वे द्वे द्वे द्वे द्वे नामनि गुरुध्वम् नामनि इति नामनि कुरुध्वमथ अतः प्रवाह वाप्स्यथ आप्स्यथन नवाह वेति इत्यग्नयः अग्नयो वै वा तस्माद्विनामाः दिशनिया, विनामाः ब्राह्मणः विनामेति द्विनामाः ब्राह्मणोऽर्धुरः अर्धुरस्तेषाम् तेशाम, तेषाम् ये ये नेदिष्टम् नेदिष्टम् पर्यविशन् पर्यविशन्ते पर्यविशन्निति पर्यविषन् ते सोमपीथम् सोमबीथम् प्र सोमपीथमिति सोमावीथम् प्राप्नुवन् आप्नुवन्नाहवनीयः आहवनीयः आहवनीय इत्या आहवनीयः आग्नेध्रियो होत्रियः आग्नेध्रिय इत्याग्निध्रियः होत्रियो मार्जालीयः मार्जालीयस्तस्मात् तस्मात् तेषु तेषु जुह्वति जुह्वत्यतिहाय अतिहाय वषत् अतिहायत्यतिहाय वृषट् करोति करोति विहि हे एते सोमबीतेन सोमबीतेनार्भ्यन्द सोमबीथेन सोमाबीतेन आर्भ्यन्ददेवाः देवा वै मय्याः याः प्राचीः प्राचीराहुदीः आहुदीरजुहवः आहुतीरित्याहुतिः अजुहवर्ये ये पुरस्ताद् पुरस्तादसुराः असुरा आसन् आसन्तान् तादृस्ताभिः ताभिः प्र प्राणदन्दा अनुवृन्दयाः याः ये पश्चाद् पश्चादसुराः असुरा आसन् आसन्तान् कागस्ताभिः ता ताभिरपा अपानुदन्त अनुदन्तप्राचीः प्राचीरण्याः प्राची रण्या आहृतयः आहृतयो हूयन्ते आहृतय इत्याहृतयः यति व्याघ्रयति पश्चाद् व्याघारयति इति व्याघारयति पश्चाच्च प्रस्ताद् पुरस्ताच्च त्यजमानः यजमानो भ्रातृव्यान् भ्रातृव्यान् प्रणदे तस्मात् तस्मात्पराजीः पराजीः प्रजाः प्रजाः प्रजा इति प्रवीयन्ते प्रतीचिः प्रतीचीर्जायन्ते जायन्ते प्राणाः प्राणाः वा एते एते यद्धिष्णीयाः धिष्णीयायद् यदद्धर्युः अद्धर्युः प्रत्यङ् प्रत्यङ्गधिष्णीयान् धिष्णीयान् अतिसर्प्ये एत अतिसर्पे यत् प्राणान् अतिसर्प्येदिद्यसर्प्य एत प्राणामिति प्राणान् सङ्कर्षेत् कर्षेत् प्रमायुकः प्रमायुकः स्यात् प्रमायुक इति प्रामायुषः प्रा, स्यान्नापि नाभिर्वै ना वा ना एषा ना एषा प्राणः प्राणोवान् प्राणयति प्राणः अपानपानः अपानो यत् अपानयत्यपानः इदद्धर्युः प्रत्यङ् प्रत्ययहोतारम् होतारमतिसर्पेत् अतिसर्पेत पाने अतिसर्पेदित्युति सर्पेत् प्राणे प्राणम् अपानयत्यपाने प्राणम् द्यात् प्राणयति प्राणम् दद्यात् प्रमायुगः प्रमायुगः स्यात् प्रमायुग इति प्रामायुगः स्यान् र्युः अध्वर्युरुप उपगायेत् रायेद्वाग्वीर्यः वाग्वीर्योपै वाग्वीर्येति वागध्वर्युः अध्वर्युर्यध्वर्युः अध्वर्युरुपगायेत् उपगायेद्घात्रे उपगायेत् उद्घात्रे वाचम् उद्घात्रे इत्युतरात्रे वाचतुम् सम्प्रयच्छेत् यच्छेदुपदासुगा उपदासुगास्य उपदासुरेत्युपदासुगा अस्य वाग्वादिनः वदन्ति ब्रह्मवादिन इति ब्रह्मवादिनः वदन्ति न नासर्गस्थिते असर्गस्थिते सोमेः असर्गस्थिते इति संस्थिते सोमेद्धर्युः अद्धर्युः प्रत्यङ् प्रत्यङ्कतः करोति अतीयाद् अथ कथा तथाक्षिणानि दाक्षिणानि होतुम् होतुमेति एतियामः यामो हि हि सः स तेषाम् तेषाम् तस्मै तस्माह देवायामम् यामं वायामम् अयामं वाज्ञास्यन्ति ज्ञास्यन्तीति इत्युत्तरेणेण आग्ने परीत्या आग्ने जुहोरिति दाक्षिणानि दाक्षिणानि न प्राणानि प्राणान्तम् प्राणानिति प्राणानि सङ्कर्षणि करुषलिन्ये अन्ये धृष्ण्याः धृष्णया उप्यन्ते उप्यन्तेन nine-year-old. अन्येयान् यान् निपपति निपपति तेन निपपतीति नेपति तेन तान् तान् प्रीणाति प्रीणादि यान् न निपपति निपपति यत् निपपतीति नेपति यदपदिशति अनुदिशति तेन अनुदिशतीत्यपदिशति तेन तान् तान् यति तान् स्वर्गाय वै स्वर्गायति लोकाय लोकाय भूयन्ते भूयन्ते यत् यद्वैसर्जनानि वैसर्जनानि द्वाभ्याम् द्वाभ्याम् गार्भे दारुः जहोदि दारुवृत्ते दार्हवृत्तेपादपादृपाद यजमानप्रदिश्यति प्रतिष्ठित्या आग्नीध्रे प्रदिश्यत्यादि प्रदेशितिः आग्नीध्रे जहोति आग्ने्रे इत्याग्नेः युहोत्यन्तरिक्षे अन्तरिक्ष एव आक्रमते क्रमदाहवनीयः आह्वनीये ज्योति आह्वनीय आह्वनीये युहोति सुवर्गम् स्वर्गमेव स्वर्गमिति सुभागम् एव वै सुवर्गम् स्वर्गम् लोकम् स्वर्गमिति स्वभागम् लोकम् यतः यतो रक्षाकुम्सि रक्षाकस्य लिखाकुम् सन्सन्तेन ते सोमेन सोमेन आज्ञा रक्षाकम्सि रक्षाकस्यपहत्या अपहत्या त्वम् अपहत्यपहत्य अपत्वमात्मानम् आत्मानम् कृत्वा कृत्वा स्वर्गम् स्वर्गम् लोकम् स्वर्गमिति स्वहागम् रक्षसामनुपलाभाय अनुपलाभायात्तः अनुपलाभायैत्यनुपालाभाय आत्तः सोमः सोमो भवति भवत्यथ अथ वैसर्जनानि वैसर्जनानि विहोति रक्षसामपहत्यै अपहत्यै त्वम् अपहत्या इत्यपहत्यै त्वम् सोम सोम तनोगृद्भ्यः तनोगृधेति तनोगृध्येति तनोकृतेभ्यः इत्याह आह तनोकृत् तनोगृद्धि तनोकृति तनोकृत् एषः एष द्वेषोगोभ्यः द्वेषोगोभ्योऽन्यकृतेभ्यः There's your own data, there's your own data. अन्यकृतेभ्यः अन्यकृतेभ्यः इत्यन्याकृतेभ्यः इत्याह आहान्यकृतानि अन्यकृतानि अन्यकृतानि इत्यन्याकृतानि हि रक्षाकम्सि रक्षाकस्यन्तासि यंदा, असि वरोथम् वरोथमिति इत्याह आहोरु वृणः नस्कृधि कृधितदाह आहृषाणः विषाणो अप्तुः अप्तुराज्यस्य आज्यस्य वेदो वेत्ति इत्याह आहाक्तुम् अप्तुमेव एव यजमानम् यजमानम् कृत्वा कृत्वा स्वर्गम् स्वर्गम् सुबर्दं, लोकम् स्वर्गमिति स्वहागम् लोकम् गमयति गमयति रक्षसाम् रक्षसाम् अनुपलाभाय अनुपलाभाया अनुपलाभायेति सोमम् ददते ददतः आग्राण्णः द्रावण्णाः आवायव्यानि वायव्या अन्या आ द्रोणकलशम् द्रोणकलशमुत् द्रोणकलशमिति द्रोणकलशम् उत्पत्नीम् पत्नीमा आनयन्ति नयन्ति अन्वनागुंसि अनागुंसि प्रवर्तयन्ति वर्तयन्ति यावदेव एवास्य तस्यास्ति अस्ति तेन तेन सह सह लोकमेति एति नयवत्या नयवत्यर्चा नयवत्येति नयावत्याः रुचाग्ने आग्ध्वे आग्नेध्वळित्याग्नेयुध्वेः युहोति स्वर्गस्य स्वर्गस्य लोकस्य स्वर्गस्येति स्वभागस्य लोकस्याभिनीय इत्यै अभिनी इत्यै द्राविण्णः अभिनीयत्यादित्यभिनीत्यैः द्रावणो वायव्यानि वायव्यानि द्रोणकलशम् द्रोणकलशमाग्नेध्वे द्रोणकलशमिति द्रोणकलशम् आग्नेध्वप आग्नेग्नेयुध्वेः उपवासयति वासयति विम् एनन्तैः तैर्गृह्णते गृह्णते यत्सः सहोपवासयेत् उपवासयेदपवायेत उपवासयेदित्युपावासयेत् अपवायत सौम्या सौम्य च प्रपादयति पालयति स्वयाः स्वयैव एनयम् एनम् देवतया देवतया प्रपादयति पादयतिरित्याः अदित्यासदः अदित्यासदः सदा आसीद सीदेति इत्याह आह यथायजुः यथायजुरेव यथायजुरिति यथायजुः एवैतत् एतद्यजमानः यजमानो वै वा एतस्य पुरा पुरा गोप्ता भवति भवत्येषः एषवः देव देव समितः समितः सोमः सोम इति इत्याह आह सविदर्प्रसूदः समितृप्रसूद एव सविदर्प्रसूत इति सविदृप्रसूदः एवम् देवताभ्यः देवताभ्यः सम्प्रयच्छति यच्छत्येतत् एतत्त्वम् त्वम् सोम सोमदेवः देवो देवान् उपागाः गा इत्याह आह देवः देवो हि येषः एष सन् सन् देवान् उपैतीदम् उपैतीत्युपादयति इदमहम् अहम् मनुष्यः मनुष्यो मनुष्यान् मनुष्यामिति इत्याह आह मनुष्यः मनुष्यो हि ह्येषः एष सन् सन्मनुष्यान् मनुष्यानुपैति उपैति यत् उपैति इत्युपायति यदेतत् एतद्यजोः यदुर्न न ब्रूयात् ब्रूयादप्रजाः अप्रजा अपशुः अप्रजा इत्यप्रजाः अपशुर्यजमानः प्रजयाः प्रजया सः प्रजयति प्रायः इत्याह आह प्रजयाः प्रचयिवा प्रचयेति प्राजयाः एव पशुभिः पशुभिः सह पशुभिरति पशुभिः सह एवम् इमम् लोकम् लोकमुपावर्तते उपावर्तते नमः उपावर्तते इत्युः आवर्तते नमो देवेभ्यः देवेभ्य इति इत्याह आह नमस्कारः नमस्कारो हि नमस्कार इति नमः हि देवानाहम् देवानागः सधा सुधा पितृभ्यः सधेतिः स्वाधा पितृभ्यैति पितृभ्यैति पितृभ्यः इत्याह आसधाकारः सुधाकारो हि सुधाकारैति सधाकारः हि पितृणाम् पितृणामिदम् इदमहम् अहनिहि निर्वरुणस्य वरुणस्य पाशात् पाशादिति इत्याह आहवरुणपाशात् वरुणपाशादेव वरुणपाशादिति वरुणापाशाद् एवनिः निर्मुच्यते मुच्यते तेः अर्णेय व्रतपते व्रतपद आत्मनः व्रतपतेति व्रतापतेः आत्मनः पूर्वा पूर्वातनोः तनोरादेया तनो आदेयेति आदेयेत्यादेया इत्याहो इत्या आहुः कः को हि हि तत, तत् तद्वेद वेदयत् यद्वसीयानि वसीयांशे भूते भूते पुनः पुनर्वा वा ददाति ददाति ेति इति ग्रावाणः ग्रावाणो वै सोमस्य सोमस्य राज्ञः राज्ञो मलिम्लुसेना मलिम्लुसेनायः मलिम्लुसेनेति एवम् एवम् विद्वान् विद्वान् ग्रावणः रावण्ण आग्नेध्रे आग्नेध्र उपवासयति आग्नेध्र इत्याग्नेध्रे उपवासयति न उपवासयति इत्युपवासयति नैनम् एनम् मलिंसेना मलिंलुसेना विन्दति मलिं लुसेनेति मलिंलुसेना विन्दतीति विन्दति वैष्णव्यर्चा रुचा हृत्वा हृत्वा यूपम् यूवच रचैति यैर्वैष्णवः वैष्णवो वै ेवतयाच्छ अच्छैति एत्यति अत्यन्यान् अन्यानगाम् अघान्न नान्यान् अन्यानुप उपागा अघामिति इत्याह आहाति अतिः अन्यान् अन्यानेति एति नान्यान् अन्यानुपैति उपैत्यर्वाक् उपैतिपादयति अर्वाक्त्वापरैः परैरविदम् अविदम् परः परोवरैः अपरैर् इत्याह आहार्वाग् अर्वाघि येनम् एनम् वरैः परैर्विन्दति विन्दति परः परोवरैः अपरैस्तम् तन्त्वा त्वादृशे दृशे वैष्णवम् वैष्णवम् देवयज्ञायैः देवयज्ञाजा इति देवयज्ञाजा इति देवायज्ञायैः येयाः आहदेवयज्ञायै देवयज्ञायैः देवयज्ञाजाया इति देवायज्ञायैः येनम् एनम् द्विषते द्विषते देवः एवस्वाः त्वा सविधा सविधा मध्वा मध्वानक्तो अनक्ति इत्याह आह तेजसा तेजसैव एवैनम् एनमनक्ति अनक्त्यौषधे ओषधे यत्रायस्व प्रायस्वैनम् एनग् स्वधिते स्वधिते वा स्वधिरैदिस्वाधितेः मैनम् एनगुम् इद्याह आहवज्रः वज्रो वै वै स्वधिभिः स्वधिशान् स्वधिरैर्दिस्वाधिः श्रान्त्यैः स्वधितेः स्वधितेर्वृक्षस्य स्वधिरेर्दिस्वाधितेः वृक्षस्य विभ्यदः विभ्यदः प्रथमेन प्रथमेन शकलेन शकलेन सह सह तेजः तेजः परापदति पतति यः प्रथमः प्रथमः शकलः शकलः परापदे यत् परापदेत्तम् तमपि अप्या आहरेत् हरेत् सेदसम् सते समेवा सतेलसमिति स देदसम् एवैनम् एनमा आहरति हरतीमे इमे वै लोकाः लोकायूपात् यू प्रयत इति प्रायतः बिभ्यदिवम् इवमग्रेण अग्रेण मा लेखीः लेखीरन्दरिक्षम् अन्तरिक्षम् मध्येन मध्येन इत्याह आहैभ्यः एभ्य एवयम् एवम् लोकेभ्यः लोकेभ्यः शमेति शमेति वनस्पदे वनस्पदे शतबलुषः शतवलुषोऽपि शतबलुषेति शतावलुषः जुरोह रोहेति इत्याव्रशने आव्रशने जुहोति आव्रशन इत्यावृशने जुहोति आपृश्चनाद्वृक्षाणाम् आवृश्चनादित्या आपृश्चनात् वृक्षाणाम् भूयागुंसः भूयागुम्स उत् उत्तिष्ठन्ति तिष्ठन्ति सहस्रवर्षाः सहस्रवर्षादि सहस्रवर्षादिति सहस्रावर्षाः इवयम् वृहेम लृहेमेति इत्याह आशिषम् आशिषमेव आशिषमित्या आशिषम् एवैता एतामा आशास्ते शास्तेऽनक्षसङ्गम् अनक्षसङ्गम् वृश्चेत् अनक्षसङ्गमित्यनक्षासङ्गम् वृश्चेद्यत् यदक्षसङ्गम् अक्षसङ्गम् वृश्चेत् अक्षसङ्गमित्यक्षासङ्गम् वृश्चेदधईशम् अथैषम् यजमानस्य अधैषम् यथाईशम् यजमानस्य प्रमायुगम् प्रमायुकग् स्यात् प्रमायुगमिति प्रमायुगम् स्याद्यम् कामयेदाप्रतिष्ठितः अप्रतिष्ठितः स्यात् अप्रतिष्ठितैत्यप्रदेशितः स्यादिजी इत्यारोहम् आरोहम् तस्मै आरोहमित्याहरोहम् तस्मै दृष्टेद् दृष्टेदेषः एष वै वै वनस्पतीनाम् वनस्पतीनामप्रतिष्ठितः अप्रतिष्ठितो प्रतिष्ठितः अप्रतिष्ठितैत्यप्रदेशितः अप्रतिष्ठित एव अप्रतिष्ठितैत्यप्रदेशितः एव भवति भवति यम् यम् कामयेद कामयेदा पशुः अपशुः स्यात् यादिजी इत्यपर्णम् अपर्णन्दस्मै तस्मै शुष्काग्रम् शुष्काग्रम् पृश्चेत् शुष्काग्रमिति शुष्काग्रम् पृच्छेदेषः एष वै वैव वनस्पतीनाम् वनस्पतीनामपशव्यः अपशव्यो पशो अपशुरेव एव भवति भवदीयम् यम् कामयेत कामयेत् पशुमान् पशुमान् स्यात् पशुमानिति स्यादिति इति बहुवर्णम् बहुवर्णन्दस्मै बहुवर्णमिति बहुवर्णम् तस्मै बहुशाकम् बहुशाखम् पश्चेत् बहुशाकमिति बहुशाकम् पृच्छेदेषः एष वै वैवनस्पतीनाम् वनस्पतीनाम् पशव्यः पशव्यः पशुमान् पशुमानेव पशुमान्दि पशुमान् एव भवति भवति प्रतिष्ठितम् प्रतिष्ठितम् पृश्चेत् प्रतिष्ठितमिति प्रतिष्ठितम् पृच्छेत् प्रतिष्ठाकामस्य प्रतिष्ठा कामस्य एषः प्रतिष्ठा कामस्येति प्रतिष्ठा प्रतिष्ठितः प्रतिष्ठितो यः प्रतिष्ठितै प्रतिष्ठितः यः समे समे भूम्यै स्वाद्योनेः योनेरुढः रूढः प्रति प्रत्येव एव तिष्ठति तिष्ठति यः यः प्रत्यङ् प्रत्यङ्गुपनतः उपनतस्तम् उपनदयद्युपानतः उपन तम् मृष्टेद् हि सह, हिमेधम् मेधमभि अभ्युपनतः उपनतपञ्चारिम् उपनदयद्युपानतः पञ्चारग्निम् उपन तस्मै तस्मै मृष्टेद् वृश्चेद्यम् यम् वि कामयेद कामये उपैनम् एनमुत्तरः उत्तरो यज्ञः उत्तरो यज्ञो न मेल् इति पञ्चाक्षरा पञ्चाक्षरा भुण्डिः पञ्चाक्षर इति उपयम् इत्युतस्य ऋतुष्वेव एवम् प्रति प्रतिष्ठते सप्तार्दिम् पशुकामस्य सप्त पशुकामस्य ेवजस्रामस्य धृताः तेजस्रामस्य त्रिवृता सोमेन त्रिवृद्रिवृतः सोमेन संवितम् संवितम् तेजः संवितमिति संवितम् तेजस्त्रिवृत् त्रिवृत्तेजस्वी त्रिवृदरित्रैवृत तेजस्येव एव भवति भवत्येकादशारत्निम् एकादशारत्मिन्द्रेगामस्य एकादशारत्मित्येकादशारत्निम् इन्द्रियकामस्यैकादशाक्षरा इन्द्रियकामस्येति एकादशाक्षरा दृष्टक् एकादशाक्षरे इत्येकादशाक्षराष्टक्ति पञ्चदशारिम् भ्रातृव्यवतः पञ्चदशारद्यमिति पञ्चदशार्यम् भ्रातृव्यवतः पञ्चदशः भ्रातृव्यवत इति भ्रातृर्व्यावतः पञ्चदशो वज्रः पञ्चदश इति पञ्चादशः वज्रो भ्रातृव्याभितृर्व्याभिः त्यादि भातृव्याभूतिः सप्तदशारद्यम् प्रजाकामस्य सप्तदशारद्य सप्तदशस्य सप्तदशः प्रजाकामस्य प्रजापतिः सप्तदश इति सप्तादशः प्रजापतिः प्रजापतेः प्रजापतेः प्रजापतेराः एकविंशत्यरत्म् एकविंशत्यरत्म् प्रतिष्ठाकामस्य एकविंशत्यरत्न्यमित्येकविंशति अरज्ञम् प्रतिष्ठा कामस्यैकविदंशः प्रतिष्ठा कामस्य प्रतिष्ठा कामस्य एकविंश सोमानाम् प्रतिष्ठा प्रतिष्ठा प्रतिष्ठत्यै प्रतिष्ठेति प्रतिष्ठा प्रतिष्ठत्या अष्टाश्रिः प्रतिष्ठत्याः अष्टाक्षरा गायत्री अष्टाक्षरे तिष्टाक्षरा गायत्री तेजः तेजो गायत्री गायत्री गायत्री ैवायत्र्या यज्ञमुखेन यज्ञमुखेन लोकेभ्यः लोकेभ्यः प्रोक्षति पराञ्च परा अन्तम् प्रोक्षति उक्षति पराग् परागिव इव हि इस्वर्गः सुवर्गो लोकः सुवर्ग इति सुवहागः लोकः क्रूरम् क्रूरमिव इवै वा एतत् एतत्करोति करोति यत् खनत्यपः अपोप अवनयति नयति शान्ति शान्ति यवमतीः यवमतीर्व यवमतीरिति अवनयति नयत्योर्क् ऊर्ज्वैर्वयवः यजमानेन यजमानेन यूपः यूपः संमितः संमितो यावान् संमितैर्मितः यावानेव एव यजमानः यजमानस्तावतीम् तावदीमेव एवास्मिन् अस्मिन्नोर्जम् अस्मिन ऊर्जम् दधाति दधाति पितृणाम् पितॄणांसदनम् सदनमसि असीति इति बर्हि बर्हिरव अवस्त्रणादिणादि पितृदेवत्यम् पितृदेवत्यगम् हि पितृदेवत्य पितृदेवत्यम् ह्येतत् हेतद्यद् यन्निघातम् निघातम् यत् निघातमिति निघातम् यद्बर्हि बर्हिरनवस्तीर्य अनवस्थीर्यमिनयात् अनवस्थीर्येत्यनवस्थीर्य विनयात् पितृदेवत्यः ऋदेवत्यो निखातः ऋदेवत्य इति पितृदेवत्यः निखातः स्यात् निखात इति निखातः स्याद्बर्हि बर्हिरवस्थैर्य अवस्थैर्य विनोति अवस्थैर्य इत्यपास्थैर्य विनोत्यस्याम् अस्यामेव एवैनम् एनम् विनोति विनोति यूवृषकलम् रूवृषकलमवृषकलमिति यूपशकलम् अवाहास्यति अस्यति सतेरसम् सतेरसमेव सतेरसमिति सा तेरसम् एवेयम् एनम् विनोदि देवः देवस्वा साता सवितामध्वा मध्वा न इत्याह आह तेजसा तेजसैव एवम् एनमनग् अनक्तिसुविप्लाभ्यः सुवित्पलाभ्यः स्वा सुविप्लाभ्येदिसो विप्पलाभ्यः औषधीभ्यः ओषधीभ्यैदि औषधीभेत्यौषधीभ्यः इति चशालम् चशालम् प्रति प्रतिमुञ्चति तस्मात् तस्माच्छीर्षतः शीर्षत ओषधयः औषधयः फलम् फलम् गृह्णन्ति तेजोवि वा आज्यम् आज्यम् यजमानेन यजमानेन अग्निष्ठा अग्निष्ठाश्रि अग्निष्ठेरित्यज्ञेस्था अश्रिसंविधा संविधा यत् संमिते संमिता यदग्निष्ठा अग्निष्ठामश्रिम् अग्निष्ठामित्यज्ञेस्था अश्रिमनकि अनग् यजमानम् यजमानमेव एव तेजसा तेजसानग्नि अनत्यान्तम् आन्दमनग्नि आन्दमित्या अन्तम् अनग्यान्तम् आन्दमेव आन्तमित्या अन्तम् एव यजमानम् यजमानम् तेजसा तेजसानग् अनग्दि सर्वतः सर्वतः परिपरिवृषति विषद्यपरिवर्गम् अपरिवर्गमेव अपरिवर्गमित्यपरिवर्गम् एवास्मिन् अस्मिन् तेजः तेजोदधादि दधाद्युत् उद्युम् निवर्ग्रस्तभा सभाना आन्तरिक्षम् अन्तरिक्षम् ऋणेरि इत्याहैषाम् येषाम् लोकानाम् लोकानाम् विधृत्यै विसृद्यै वैष्णम्या, विधृत्याधृत्यै वैष्णव्यर्चा विशाकलम्बयति कलम्बयति वैष्णवः वैष्णवो वै वै देवतया योपस्वयाः स्वयैव एवम् एनम् देवतया देवतया कल्पयति कल्पैरि द्वाभ्याम् द्वाभ्याम् कल्पयति कल्पयरि द्विपाद् द्विपाद्यमानः द्विपादि द्वीपाद् यजमानः प्रदर्श्यत्यै प्रदर्शत्यैयम् प्रदर्श्यत्यादि प्रतिष्ठित्यै यम् कामयेत कामयेदसा तेजसैनम् एनम् देवताभिः देवताभिरिन्द्रियेण इन्द्रियेण विद्येयम् अर्थेयमिति अन्यस्थानत्यज्ञेन सा स्याश्रिम् अश्रिमाह्वीयात् आह्वीयादिथम् आह्वीयादित्याहनीया तेजसैवताभिः इन्द्रियेणपि व्यर्थयेदि अर्धयेयम् यम् कामयेत कामयेत् तेजसा तेजसैनम् एनन्देवताभिः देवतापीरीन्द्रियेण इन्द्रियेण सम् समर्थयेयम् अर्धयेयमिति a um... क्षत्रावम् इत्याह आह यथायजुः यथायजुरेव एतत्परि परिोर्ैरशना रशना यजमानेन यजमानेन यूपः योगः संमितः संमितो यजमानम् संवित इति संमितः यजमानमेव एवोर्ज ऊर्जासम् समर्थयति अर्थयति नाभिदग्ने नाभिदग्ने नाभिदघ्न इति नाभिदग्ने परिव्ययति नाभिदग्ने नाभिदग्न एव नाभिदग्न इति नाभिदघ्ने एवास्मै अस्मावूर्जम् ऊर्जम् दधाति दधाति तस्मात् तस्मान्नाभिदग्ने नाभिदग्नऊर्जा नाभिदघ्न इति नाभिदघ्ने ऊर्जा भुञ्जते भुञ्जतेऽयम् किम् कामयेत कामयेदोर्जा ऊर्जिनम् एलम्बि व्यर्धयेयम् अर्धयेयमिति इत्यूर्ध्वा ऊर्ध्वाम् वातस्य बा, तस्यावाचीम् अवाचीम् वा बा, अवोहेद् ऊहेदूर्जा ऊर्जैव एवैनम् एनम् वि व्यर्धयति अर्धयत् यदि यदि कामयेत कामयेत वर्षकः वर्षकः पर्जन्यः अर्जन्यः स्यात् स्यादिरि इत्यवाचीम् अवाचीमव अवोहेर् वृष्टिमेव एवनि नियच्छति यच्छति यदि यदि कामयेत कामयेतावर्षुकः अवर्षुकः स्यात् स्यादिरि इत्यूर्ध्वाम् ऊर्ध्वामुत् वृष्टिमेव एवोद् उद्यच्छति यच्छति वृणा दृणान् निघातुम् निघातुम् मनुष्याणाम् ऊर्ध्वम् निखातात् निघातादा निखातादिति निघातात् आदर्शनायाः रशनाया ओषधीनाम् ओषधीनागुम् अशनाविश्वेषाम् विश्वेषाम् देवानाम् देवानाम् ऊर्ध्वम् ऊर्ध्वं रशनायाः अशनायाः आचषालात् चालादिन्द्रस्य इन्द्रस्य चषालम् चालकम् साध्यानाम् साध्यानामतिरिक्तम् अतिरिक्तं सः अतिरिक्तमित्यतिरिक्तम् स वै वा एषः एष सर्वदेवत्यः सर्वदेवत्यो यत् सर्वदेवत्रे सर्वा देवत्यः यद्यूपः योपो यत् यद्यूपम् यूगम् विनोति सर्वाः सर्वा एव देवताः प्रीणादि प्रीणादि यज्ञेन यज्ञेन मयि मयि देवाः एव स्वर्गम् स्वर्गम् स्वर्गमिति लोकमायन् आयन्ते ते मन्य मनुष्याः मनुष्यानः नोन्ना भविष्यन्ति अन्ना ते ते रूपेन योगयित्वा योगयित्वा स्वर्गम् स्वर्गम् स्वर्गमिति स्वभागम् लोकमायन् आयन्तम् तम् ऋषयः ऋषयो रूपेन यूपेनैव एवानो प्राजानन् अजानन्दत् तद्यूपस्य त्वम् योगत्व योगत्वम् इति योगायत्वम् यद्योगम् योगम् विनोति विनोति स्वर्गस्य स्वर्गस्य लोकस्य स्वर्गस्य लोकस्य प्रज्ञाति प्रज्ञाति पुरस्तात् प्रज्ञात्यादिप्रज्ञाति पुरस्तान् विनोदिनोति पुरस्तात् पुरस्ताधि यज्ञस्य प्रज्ञायते प्रज्ञायते प्रज्ञातम् ज्ञायुत प्राज्ञायुते अप्रज्ञातम् अप्रज्ञात इत्यप्राज्ञातम् यदधिवर्णे अधिवर्ण आहो अधिवर्ण आहुरिदम् इदम् कार्यम् कार्यमासीत् आसीदिति इति साध्याः साध्या <ढ़ागागा> वै वै देवाः देवायज्ञम् यज्ञमति अत्यमन्य अमन्यन्ततान् तानि यज्ञः यज्ञो न नास्पृशत् अस्पृशत्तान् अतिरिक्तमासीत् अतिरिक्तमित्यलिरिक्तम् आसीत् तदस्पृशत् अस्पृशदतिरिक्तम् अतिरिक्तम् वै अतिरिक्तमित्यलिरिक्तम् वा एतद् एतद्यज्ञस्य यज्ञस्य एतद्यूपस्य यूपस्य यत् यदोरुधम् ओरुधम् तेषाम् तद्भागधेयम् भागधेयन्तान् भागधेयमितिभागाधेयम् तानेव एव तेन तेन प्रीणादिदेवाः देवा वै वै सर्गस्य रे सर्गस्य रे सोमे सर्गस्य सोमे प्रसृजः अहरन्त्र प्रयोगम् योपन्ते ते मन्यन्त मन्यन्त यज्ञवेषसम् यज्ञवेषसम् मयि यज्ञवेषसमिति यज्ञावेषसम् वा इदम् इदम् कुर्मः कुर्म इति प्रस्तरमिति प्रास्तरम् सुजान् निष्क्रयणम् निष्क्रयणम् पश्यन् निष्क्रयणमिति निःक्रयणम् सर्गसिले सर्गशिले सोमे सर्गसिले सोमे प्रस्तरम् प्रस्तरम् हरदि प्रस्तरमिति प्रास्तरम् हरदि जहोरि जहोरि स्वरुम् अयज्ञवेषसायज्ञा वेशसाय साध्यायवास्मिन् अस्मिन् लोके ौरासन् आसन् किञ्चन शरविषत् विषत् अग्निमेव देवाग्ने अग्ने मेधाय मेधाय आलभन्त अलभन्तन न हि अन्यद् अन्यदालम्भ्यम् आलम्भ्यमविन्दन् आलम्भ्यमित्यालम्भ्यम् अविन्दन्ततः चतुर्वै वा इमाः इमास्प्रजाः प्रजास्त्र प्रजाय प्राजाः प्राजायन्ता प्रहरति प्रहरित् प्रजानां प्रहरिप्रहरि प्रजानां प्रजननाय प्रजानामि प्राजानां प्रजननाय रुद्रः प्रजननायरिप्रजननाय रुद्रो वै प्रा एषः एष यत् यदग्निः अग्निर्यजमानः यजमानः पशुः पशुर्यपशुम् पशुमालभ्य आलभ्याग्निम् आलभ्येत्या आलभ्य अग्निम् मन्थेर् मन्थेर्दरुद्राय दुद्राय यजमानम् यजमानमपि अभिरुध्याद्भ्यात् प्रमायकः प्रमायकः स्यात् प्रमायक इति प्रामायकः स्यादथो रथो खलु अथो यज्ञथो खल्वाहुः अग्निः सर्वाः सर्वा देवताः देवताहविः अविरेतत् एतद्यद् यत्पशु पशुरि इति यद् एतत्पशुम् पशुमारभ्य तावभ्य अग्निम् आरभ्येत्याभ्य अग्निम् मन्थति मन्थति देव्याय अव्यायैव एवासन्नाय आसन्नाय सर्वाः आसन्नायत्यासन्नाय सर्वा देवताः देवता जनयति प्रगत्युपाकृत्य एव मन्थ्यः मन्थ्यस्तत् तन्न नेव इमालब्धम् आलब्धम् न आलब्धमित्यालब्धम् नेव इमानालब्धम् अनारब्धमग्नेः अनालब्धमित्यनालब्धम् अग्नेर्जनित्वम् जनितमसि असीति इत्याह आहाग्नेः अग्नेर्हितज्जनित्वम् जनित्वम् वृषणौ वृषणौ स्तः स इत्याह आह वृषणौ वृषणौ हि येतौ एतावर्वशी आयुरसि असीति इत्याह आह यचनत्वाय व्यचनत्वाय घृतेन व्यचनत्वाय इति व्यचनात्वाय घृतेन अक्ते वृषणम् अक्ते इत्यक्दे वृषणम् दधाथाम् दधामिति इत्याह आहवृषणम् वृषणग् एते एते दधाते एते इति एते दधाते इति दधाते ये अग्निम् ये इति ये अग्निङ्गायत्रम् गायत्रम् छन्दोनु अनुप्रजायस्व जायस्वेति इत्याह आह छन्दोभिः छन्दोभिरेव छन्दोभिरि छन्दःभिः एव प्रजनयति अग्नये नो अनुब्रूहि ब्रूहीति इत्याह आह सावित्रीम् सावित्रीमृतम् अन्वाः आह सदृप्रसूतः सरुदृप्रसूत एव सविदृप्रसूत इति सवितृप्रसूतः एवैनम् एनम् मन्थति मन्थति राताय राताया नो अनुब्रूहि ब्रूहि प्रह्रियमाणाय प्रह्रियमाणाय नो प्रह्रियमाणाय प्रह्रियमाणाय अनुब्रूहि ब्रूहिति इत्याह आह काण्डे काण्डे काण्डे काण्ड एव काण्डे काण्डै एवैनम् एनम् क्रियमाणे क्रियमाणे सम् समर्धयति अर्धयति गायत्रीः आयत्रीः सर्वाः सर्वा अनु अन्वाः आह गायत्रीछन्दाः गायत्रछन्दा वै आयत्रन्दा इति गायत्रा छन्दाः छन्दसाहसम् समर्धयरि अर्धयति अग्निः अग्निः पुरा पुरा भवति भवति अग्निम् अग्निम् अधित्वा अधित्वा प्रहरति प्रहरति तौ तौ सम्भवन्तौ सम्भवन्तौ यौ यजमानमभितम् भवतनसौ समनसाविधि समनसाविसामनसौ इत्याह शान्त्यै शान्त्यै प्रहृत्य प्रहृतेजुभोति प्रहृते प्रहृत्य जहोति जाताय जातायैव एवास्मै अस्मान्नम् अन्नमपि अपि दधाति आद्येन जिभोति जुहोति एतत् एतद्वै वा अग्नेः अग्नेः प्रियम् प्रियम् धाम धामयत् राज्यम् आद्यम् प्रियेण प्रियेणैव एवैनम् एवम् धाम्ना धाम्ना सम् रथो तेजसा रथो तेजसेति तेजसा ये त्वादत्ते तथ इच्छते इक्षत इव इव हि एषः एषयः यो यजते यजत उपवीः उपवीरसि उपवीरित्युपवीः असीति इत्याह आहोप उपहि एनानाकरोति आकरोत्युपो आकरोतीत्याकरोति उपो देवान् उपो इत्युपो देवान् दैवीः दैवीवृषः ऋषःप्रा प्रागुः अगुरिति इत्याह आह दैवीः दैवीः ह्येताः एताविषः ऋषःसतीः तदेवान् देवानुपयन्ति उपयन्ति वह्निः उपयन्तीत्युपायन्ति वह्निदृषिजः उषिरै इत्याह आहत्रियः ऋक्विजो वै वै वह्नयः वह्नय उषिरः उषिरस्तस्मात् तस्मादेवम् एवमाह आह बृहस्पते बृहस्पते धारय धारया वसूनि वसूनिति इत्याह आह ब्रह्म ब्रह्म वै वै देवानाम् देवानाम् बृहस्पतिः बृहस्पतिर्ब्रह्मणा ब्रह्मणै वा एवास्मै अस्मै पशून् पुशून् कव्याते ते सुदन्धाम् स्वदन्ताविति इत्याह आहस्रयति श्रयत्येव एवैनान् एनान्देव देवत्रष्टः तृष्टर्वसु वसुरण्वा रण्मेति इत्याह आहत्रष्टाः तृष्टा वै वै पशूनाम् पशूनाम् व्यसनानाम् व्यसनानागम् रूपकृत् रूपकृद्रूपम् रूपमेव एव पशुषु पशुषु दधाति ेवती रमध्वम् इत्याह आह पशवः पशवो वै वयि रेवतीशून् पशूरेव एवास्मै अस्मै रमयति रमयति देवस्य देवस्य त्वा त्वा सुवितुः सुवितुः प्रसवे प्रसव इति प्रसवे इति प्रासवे इति रशनाम् रशनामादत्ते दत्ते प्रसूवृत्यै प्रसोवृत्या अश्विनोः इति प्रासूद्यै अश्विनोबाहुभ्याम् बाहुभ्यापि बाहुभ्याहुभ्याम् बाहु इत्याह आहाश्विनौ अश्विनौ हि देवानाम् देवानामद्धर्युद्धर्युः आस्ताम् धर्युः इत्यद्धर्यु आस्ताम् पूष्णः पूर्ष्णो हस्ताभ्याम् हस्ताभ्यामिति इत्याह आहयत्यै यत्या ऋतस्य ऋतस्य त्वा त्वादेव देवः विःपाशेन देवहविरितिदेवाहभिः पाशेन आरभे रभैति इत्याह आहसत्यम् सत्यम् वै वा ऋतम् सत्येन सत्येनैव एवैनम् येन मृतेन आरभते लभुतेक्ष्मया अक्ष्मया हरिहरति हरतिवध्यम् वध्यगम् हि यप्रत्यञ्चम् प्रत्यञ्चम् प्रतिमञ्जन्ते प्रतिमञ्जन्तिर्व्यावृत्त्यै प्रतिमञ्जन्ते इति प्रतिमञ्जन्ते व्यावृत्त्यै धर्ष व्यावृत्त्या आवृत्यै धर्ष मानुषान् मानुषानि इति निधृत्यै धृत्या अभ्यः अभ्यस्त्वाः अभ्यक्तिभ्यः कोषधेभ्यः ओषधेभ्यः ओषधेभ्य इत्यौषधेभ्यः रोक्षामि रुक्षामीति इत्याह आहाद्भ्यः रद्भ्यो हि अद्भ्यैत्यभ्यः ह्येषः एष ओषधीभ्यः ओषधेभ्यः सम्भवति ओषधेभ्य इद्योषधेभ्यः सम्भवति यत् सम्भवतीति सम्भवति यत्पशुः पशुरपाम् अपाम् पेरुः पेरुरसि असीति इत्याह आहैषः एष हि अपाम् आरा पातायः यो मेधाय मेधायाभ्यते आरभ्यते यः स्वात्तम् आरभ्यत इत्या आरभ्यते स्वात्तञ्चित् चित्सदेवम् सदेवकम् हव्यम् सदेवमिति सा देवम् हव्यमापः आपो देवीः देवी स्वदत स्वददैनम् एनमिवि इत्याह आह श्रि श्रदयत्येव एवैनम् एनमुपरिष्टाद् उपरिष्टात्र प्रोक्षति मेध्यम् करोति करोति पायेभिः पायेत्यन्तरतः अन्तरत एवैनम् एनम् मेध्यम् मेध्यम् करोति करोत्यधस्तात् अधस्तादुप उपो वोक्षति ओक्षति सर्वतः सर्वत एवैनम् एनम् मेध्यम् मेध्यम् करोति करोतीति करोति अग्निना वै वै होत्रा होत्रा देवाः देवासुरान् असुरानभिः अभ्यभवन् अग्नये समिध्यमानाय समिध्यमानायानु समिध्यमानायति संनिध्यमानाय अनुब्रूहि ब्रूहीति इत्याह भ्रातृव्याभिभूति भ्रातृव्याभिभूति सप्तदश भ्रातृव्याभिभूत्या भ्रातृव्याभिभूत्यैः सप्तदश सामिधेनीः सप्तदशेति सप्तादश सामिधेनीर्नु सामिधेनेरिति सामिधेनीः अण्वाः आह सप्तदशः सप्तदशः प्रजापतिः सप्तदशेति सप्तादशः प्रजापतिः प्रजापतेः प्रजापतिरिप्रजाभिः प्रजापतेराद्यैः प्रजापते प्रजापतेः आद्यः सप्तदश सप्तदशानु सप्तदशेति सप्तादश अण्वाह आह द्वादश द्वादशमासाः मासाः पञ्च पञ्चर्तवः प्रकवत्सः स्वसंवत्सरः संवत्सरः संवत्सरम् संवत्सर इति प्रजाः संवत्सरमिति संवत्सरम् प्रजाननु प्रजा इति प्राजाः न प्रा प्रजायन्द्रे जायन्द्रे प्रजननाय प्रजानामिति प्राजानाम् प्रजननाय देवाः प्रजननायति देवा वै वै सामिधेनीः सामिधेनीरनोच्य सामिधेनीरिति सामिधेनीः अनोच्य यज्ञम् अनोच्येत्यनोच्य यज्ञन्न नानु अन्वपश्यन् अपश्यन् सः स प्रजापतिः प्रजापतिस्तूष्णीम् आघारयत् अघारयत्त वै वै देवाः देवायज्ञम् यज्ञमनु अन्वर्ष्यन् अवर्ष्यणयत् यत्तूष्णीम् तूष्णीमाघारम् आघारमाघारयति आघारमित्याघारम् आघारयति यज्ञस्य आघारयति इत्याघारयति यज्ञस्यानुख्यात्यै अनुक्षात्या असुरेषु अनुक्षात्या इत्यनुख्यात्यैः असुरेषु वै वै यज्ञः यज्ञासीत् आसीत्तम् तन् देवाः देवास्तूष्णीगुम् होमेन तूष्णीगम् होमेनाभृञ्जत तूष्णीगुम् होमेनेति तूष्णीम् होमेन अवृञ्जतयत् यत्तूष्णीम् तूष्णीमाघारम् आघारमाघारयति आघारमित्याहारम् आधारयति भ्रातृव्यस्य आघारयतीत्याघारयति भ्रातृव्यस्यैव एव तद् तद्यज्ञम् यज्ञम् रङ्गे रङ्गे वृधेणसं महर्षिपुराति पुरात्येवैनाम् त्रिस्त्रिः त्रिस्त्रिः सम् त्रिस्त्रित्रि त्रिः सर्माहार्षे महर्षि त्र्यावृत् त्रयावृद्धः त्रयावृत्ति त्रि आवृत् हि यज्ञः यज्ञोः अथो रक्षसाम् अथो यज्ञसोः रक्षसामपहत्यै अपहत्यै द्वादश अपहत्या इत्यपहतीः द्वादशम् सम्पद्यन्ते द्वादश द्वादशमासाः मासा संवत्सरः संवत्सरसंवत्सरम् संवत्सरः संवत्सरमेव संवत्सरमिति संवत्सरम् एव प्रीणाति प्रीणात्यथो संवत्सरमेव संवत्सरमिति संवत्सरम् एवास्मैः अस्मा उप उपदधाति दधाति स्वर्गस्य लोकस्य स्वर्गस्य इति सुबहारस्य लोकस्य समष्टि समष्टिरः समष्टि समष्टिः शिरो वै वा यज्ञस्य यज्ञस्य यद् यदाघारः आघारो वग्निः आघार इत्याघारः अग्निः सर्वाः सर्वा देवताः देवतायत् यदाघारम् आघारमाघारयति आघारमित्याघारम् आघारयति शीर्षतः शीतृशतरेव एतयज्ञस्य यज्ञस्य यजमानः यजमानः सर्वाः सर्वा देवताः सर्वा देवता, देवता वा उप रुन्ध्रे रन्धे शिरः शिरो वै त्वा एतत् आत्मा आघार इत्याघारः आत्मा पशुः पशुराघारम् आघारमाघार्य आघारमित्याघारम् आघार्य पशुम् आघार्येद्याघार्य पशुपुंसम् समनति अनति आत्मन् आत्मन्नेव एव यज्ञस्य यज्ञस्य शिरः शिरः प्रति प्रतिदुधादि दुधादिहे सं, प्राणः प्राणो वायुना प्राण इति वायुना गच्छताम् गच्छलामिति इत्याह आह वायुदेवत्यः वायुदेवत्यो वै प्राणः प्राणो वायौ प्राण इति आयावेव एवास्य अस्य प्राणम् प्राणम् जुहोरि प्राणमिति प्राणम् जुहोरिसम् संयजत्रैः यजत्रैरङ्गानि रङ्गानि सम् संयज्ञपदिः यज्ञपतिराशिषा यज्ञपतिरिः आशिषेति आशिषेत्याशिषा इत्याह आहयज्ञापतिम् एवास्य अस्याशिषम् आशिषम् आशिषमित्याशिषम् स्वरूपः विश्वरूपो वै विश्वरूप इति विश्वरूपः वै त्वाष्ट्रः त्वाष्ट्र उपरिष्टाद् उपरिष्टात्पशुम् पशोभिरभ्यवमीरी तस्मात् तस्मादुपरिष्टाद् उपरिष्टात्पशोः पशोर्न नाव अपद्यन्ति द्यन्दी यदुपरिष्टाद् उपरिष्टात्पशुम् पशुम् समनक्ति समनक्तिमेध्यम् समनर्ति समनर्ति मेध्यमेव एवैनम् एनम् करोति करोत्युत्तुजः ऋत्तुजो वर्णीते प्रणीते शृन्दांसि शृन्नागस्येव एव वृणीरे प्रणीरे सप्त सप्तवर्णीते प्रणीते सप्त सप्त ग्राम्याः पशवः अशवः सप्तारण्याः आरण्याः सप्त सप्त शृङ्गागंसि शृन्नागस्य भजस्य अभयस्यावृद्धि अवृद्ध्या एकादश अवर्ध्या इत्यवार्ध्यैः एकादशप्रयाजान् प्रयाजानयाजाति प्रयाजान् एषति दश दश वै वै पशोः पशोः प्राणाः प्राणा आत्मा प्राणा इति प्राणाः आत्मैकादशः एकादशो यावान् यावानेव आत्मा आत्मैव एवात्मानम् आत्मानम् वरि परिषये वज्रः अज्रो वै वयि सधितिः सधितिर्वज्रः सधिदिरिति साधितिः वज्रो यूपशकलः रूपशकलो घृतम् रूपशकल इति रूपशकलः घृतम् खलु खलु वै वै कृत्वा कृत्वा सोमम् सोमघ्नन् अघ्नम् अक्तौ भक्तौ पशुम् पुशुम् वज्रेणैव एवम् एनम् वशे वशे कृत्वा कृत्वा लभते आलभते लभते करोति पर्यग्नि पर्यग्नि करोति सर्वभूतम् सर्वभूतमेव अस्कन्दाय स्कन्दम् अस्कन्दगम् हि एतद् तद्यद् यद्धुरस्य कुतस्य स्कन्दति स्कन्दति त्रिः त्रिः पर्यज्ञि पर्यज्ञि करोति पर्यज्ञे परियज्ञि करोति त्र्यावृत् त्र्यावृद्धि त्रेयावृत् यज्ञः यज्ञोऽथो अथो रक्षसाम् अथो यचो रक्षसामपहति अपहति ब्रह्मवादिनः अपहत्यः इति चपाहर्ति ब्रह्मवादिनो वदन्ति ब्रह्मवादिनैति ब्रह्मवादिनः वदन्त्यन्वारभ्यः अन्वारभ्यः पशू अन्वारभ्य इत्यनो आरभ्यः पशू रभ्या अन्वारभ्या इति अन्वारभ्या इत्यनु आरभ्या इति नृत्यवे नृत्यवे एषः एष नीयते नीयते यत् यत्पशुः पशुस्तम् अन्यत् अदन्वारभेद मन्वारभेदप्रमायुगः अन्वारभेदेत्यनो आरभेद प्रमायुको यजमानः प्रमायुकैरिप्रामायुगः यजमानः स्यात् स्यादथोः अथो खलु अथो खल्वाहुः आहुः स्वर्गाय वै स्वर्गायैति सुमहागाय वा एषः लोकाय लोकाय नीयते नीयते यत् पशुरिति इति यत् यन्ना नान्वारभेद अन्वारभेदस्वर्गाद् अन्वारभेदेतिरमम् आरभेत स्वर्गाल्लोकात् स्वर्गादितिसुभागात् लोकाद्यजमानः यजमानो हि एतवाश्रवणीभ्याम् उपाश्रमणीभ्यामन्वारभते उपाश्रवणीभ्यामिति उपाश्रमणीभ्याम् अन्वारभते तत् अन्वारभत इत्यनु आरभते तन्न नेव इवान्वारब्धम् अन्वारब्धम् न अन्वारब्धमित्यनो आरब्धम् नेव इवानन्वारब्धम् अनन्वारब्धमप अनन्वारब्धमित्यनो आरब्धम् उमाप्रेष्य इष्यभोतः हो देवेभ्यः देवेभ्य इत्याह आहेषितम् इषितगं हि हि कर्म कर्मक्रियते क्रियते क्रियते रेवतीः रेवतीर्यपतिम् यज्ञपतिम् यज्ञपदिमिति यज्ञापतिम् प्रियथा विशदा प्रियथेति प्रियथा आविशदा विषदेति इत्याह आह यथायजुः यथायजुरेव यथा यजुरिति यथा यजुः एवैतत् एतदर्जिणा अर्जिणापस्तात् पुरस्सादे एति रक्षसाम् रक्षसामवहत्यै अपहत्यै पृथिव्याः अपहत्याहत्यै पृथिव्याः संवृजः संवृजः पाहि संवृत इति संम्रजः पाहिति इति बर्हिः उपाय अस्कन्दाय स्कन्दम् अस्कन्दगं हि एतत् तद्यद् यद्बर्हिषि बर्हिषि स्कन्दति स्कन्दत्यम् एव बर्हिषतमिति बर्हिषदम् एवम् एनम् करोति परागा आवर्तते वर्तते धर्युः पशोः पशोः सम् ज्ञाप्यमानात्प्यमानात् पशुभ्यः ज्ञाप्यमानादिति सम् पशुभ्य एव पशुभ्य इति पशुभ्यः एव तत् तन्निरे तदात्मनः आत्मनो राम् पुरस्कायुरस्काय रक्षति रामस्कायेत्यरा पुरस्काय पृच्छति श्रियम् श्रियं पशूना एवम् एवम् पृष्ठालोका पश्चालोका वै पश्चाल्लोकेति पृष्ठात् लोकाः वा एषा एषा प्राची प्राचीयते उदानीयते उदानीयते यत्पत्नीः पद्ने नमः नमस्ते ताता आतानेति आतानेत्यातान इत्याह आहादित्यस्य आदित्यस्य वै वै रश्मयः रश्मयातानाः आतानास्तेभ्यः आताना इत्यातानाः तेभ्येव एव नमः नमस्करोति करोत्यनर्वा अनर्वा प्रेहि इहीति इत्याह आहभ्रातृव्यः भ्रातृव्यो वै वार्वा अर्वा भ्रातृव्यापनुद्यै भ्रातृव्यापुनत्यै हृतस्य भ्रातृव्यापनृत्या इति भ्रातृव्यापनृत्यैः ऋतस्य कुल्याम् कुल्यावनौ अनुसः सः प्रजया प्रजया सह प्रथेति प्राजया सह राजः राजस्पोषेण इत्याह आशिषम् आशिषमेव आशिषमित्याशिषम् एवैताम् एतापः आपो देवीः देवीः शुद्धायुवः शुद्धायव इति शुद्धायव इति शुद्धायुवः इत्याह आह यथायजुः यथायजुरेव यथायजुरिति यथायजुः एवैतत् एतदित्येतत् रशोर्वै वा आलब्धस्य आलन्धस्य प्राणान् आलब्धस्येत्यालब्धस्य प्राणान् शुक् प्राणान् यदि प्राणान् शृगृच्छति पृच्छति वाक् वा के प्राणः प्राणस्ते प्राणै प्राणः त आ आप्यायताम् प्यायतामिति इत्याह आह प्राणेभ्यः प्राणेभ्य एव प्राणेभ्यैति प्राणेभ्यः एवास्य अस्य शुचम् शुचगुम् शमयति शमयति सा सा प्राणेभ्यः प्राणेभ्योऽधि प्राणेभ्यैति प्राणेभ्यः पथिपृथिवीम् पृथिवीगुं शुक् शुक्प्रविशति विशदि शम् समहोभ्य अहोभ्यामिति अहो अहोभ्यामित्यहहाभ्याम् इतिहोरात्राभ्याम् अहोरात्राभ्यामेव अहो रात्राद्भ्यामित्याह रात्राद्भ्याम् एव पृथिव्यै पृथिव्यै शुतम् शुतकम् शमयति शमयत्योषधे ओषधे प्रायस्व प्रायस्वैनम् एनग्रस्वधिते स्वधिते मा स्वधिरैः स्वाधितेः इत्याह आह वज्रः वज्रो वै वै स्वधितिः स्वधिशाधिस्वाधितिः शान्तिै पार्श्वदः पार्श्वदाः आच्छदिमध्यः अध्यरोहिमनुष्याः अनुष्या आच्छन्ति आच्छन्ति गिरश्चेण आच्छन्तीत्याच्छन्ति गिरश्चे न मा आच्छति चनोचीनम् अनौचेन गंहिमनुष्याः मनुष्या आच्छन्ति आच्छन्ति व्यावृत्ते आच्छन्तीत्याच्छन्ति व्यावृत्ते रक्षसाम् व्यावृत्या इति आवृत्ते रक्षसाम् भागः भागोऽसि असीति इति स्थविमतः रक्त्वा अपास्यति अस्यत्यस्ना रस्नैव एव रक्षापुंसि रक्षापुंसि निरवतयते निरवतयत इदम् निरवदयत इति निः अपदयते इदमहम् अहगम् रक्षः रक्षोधमम् अधमम् नमः तमो नयामि नयामि यह योऽस्मान् अस्मान्द्वेष्टिद्वेष्टियम् यम् च त्वयम् वयं द्विष्मः विष्म इति इच्छाह आहद्वौ द्वौ वावपुरुषौ पुरुषौ यम् यञ्च चैव एव द्वेष्टिद्वेष्ट्यः यश्चनन्द्वेष्टि द्वेष्टितौ तावुभौ उभावधमम् रथमन्तमः तमो नयति नयतीशे इषे त्वा त्वेति इति पपा पपावत् उत्खिलति खिलतीच्छरे इच्छदैव इव हि एषः यो यजते यजते यत् यदुपतृ्यात् उप्याद् रुद्रः अपतृण्यादित्युपात्र्यात् रुद्रो स अस्य पशून् पशोन्घातुकः घातुकः स्यात् स्याद्यत् यन्न नोपत्रन्यात् अपतृ्यादयता अपतृण्यादित्युपातुन्यात् अयला स्यात् स्यादण्ययाः अन्ययोपतृणन्त्य उपधृत्यन्ययाः उपतृणत्येत्युपातृणत्यै धृत्यै षृदेन घृतेन द्यावापृथिवी द्यावापृथिवी प्रवापृथिवी इति द्यावापृथिवीः प्रोण्वासा प्रोण्वासामिति इत्याह आहद्यावा पृथिवी द्यावापृथिवी एव ्यावापृथिवी इति द्यावासेन रसेन अनक्यच्छिन्नः अच्छिन्नो राजः राजस्वीरः सुवीरैः सुवीरैः सोवीरः इत्याह आह यथायजुः यथायजुरेव यथायजुरिति यथायजुः एवैतत् एतत् क्रूरम् क्रूरमिव एतत्करोन्तरिक्षम् अन्तरिक्षमनु अन्विः इहीति इत्याह आहशान्त्यै शान्त्यै प्र प्र वै वा एषः एषोऽस्माद् अस्मालोकात् लोकाच्चवरे शिवदे यः यः पशुम् पशुम् नृत्यवे नृत्यवे नीयमानम् नीयमानमन्वारभदे अन्वारभदे वपाश्रवणि अन्वारभद इत्यनो आरभते अपाश्रवणि पुनः वपाश्रवणि इति वपाश्रवणि पुनरन्वारभदे अन्वारभदेऽस्मिन् अन्वारभद इत्यनो आरभते अस्मिन्नेव एव लोके लोके प्रति प्रतिष्ठति तिष्ठत्यग्निनाः अग्निना प्रतसात् प्रतसादेति एति रक्षसाम् रक्षसामपहत्यै अपहत्या अधोः अपहत्या इत्यपहत्य असो अन्वेति एतिना नान्धमम् अन्धमङ्गारम् अङ्गारमति अधिहरेद् अरेद्यत् यदन्धमम् अन्धमङ्गारम् अङ्गानमति हरेहरेद् देवताः अतिहरेदित्यविहरे अतिमन्येत मन्येत वायोः वायोवि वायो इति वायो वीहि स्तोकानाम् श्लोकानामिति इत्याह आहतस्मात् तस्माद्विभक्ताः विभक्ताः शोकाः विभक्ता विभक्ताः श्लोका वा पद्यन्ते तद्यन्ते ग्रम् अग्रम् वै वा एतत् एतत्पशूनाम् पशूणाम् यद् यद्बपा बपाग्रम् अग्रमोराम् औषधीनाम् अग्रेणैव एवाग्रम् अग्रगुंसम् समर्थयरि अर्धयत्यथो अथो ओषधीषु अथो यद्यथो ओषधीष्वेव एव शून् शून्पि प्रेषावेरि सहवेरि स्वाहाकृतेभ्यः स्वाहाकृतेभ्यः प्र स्वाहाकृतेभ्यैरि स्वाहाकृतेभ्यः इत्याह आहयज्ञस्य यज्ञस्य समिष्टेः समिष्टेः प्राणापानौ समिष्ट्यादिति समिष्टेः प्राणापानौ वै प्राणापानामिति प्राणापानौ वा एतौ एतौ पशूना पशूनाम् यत् यत्पृषराज्यम् वृषराज्यमात्मा वपा वपा पृषराज्यम् पृषराज्यमभिहार्य वृषराज्यमिति पृषदराज्यम् अभिहार्य वपा अभिघार्य इत्यभिघार्य धारयत्यात्मन् आत्मन्नेव एव पशूनाम् पशूनाम् प्राणापादौ प्राणापानौ दधाति प्राणापाना प्राणापानौ दधाति स्वाहार्ध्वनुभसम् ऊर्ध्वनभसम् मारुतम् ऊर्ध्वनभसमित्यूर्ध्वानुभसम् मारुतम् गच्छदम् रं, गच्छदमित्याह आहोर्ध्वनुभाः ऊर्ध्वनुभाः ऊर्ध्वनभा इत्यूर्ध्वानुभाः स्मृतः देवानाम् अपाश्रमणि अपाश्रमणि प्र अपाश्रमणि इति वपाश्रवणि प्रहरति हरदेनैव एवैने एने प्र एने इत्येने प्रहरति हरदिशोचि विशोचि प्र विशोचि इति विशोचि प्रहरति हरति तस्मात् तस्माद्विश्वञ्चौ विश्वञ्चौ प्राणापावानौ प्राणापानाविधि प्राणापानौ पशुमालभ्य आलभ्य पुरोडाशुम् आलभ्येत्यालभ्य रोडाशन्निः निर्वपति अपति समेधम् समेधमेव समेधमिति सामेधम् एवैनम् एनमा आलोभरे लभते वपया अपयाः प्रचल्य प्रचल्यपरोडाशेन प्रचल्येति प्राचर्य रोडाशेनत्र प्रचलति रत्योर्ग् ओर्ग्वैर्वरोडाशः प्रौढाशऊर्जम् ऊर्जमेव एव पशूनाम् पशूनाम् मनथ्यथानध्यतो दधाति दधात्यथो अथो पशोः अथो इत्यथो पशोरेव एव छिद्रम् छिद्रमपि अपि दधाति तथातिपृषदाज्यस्य पृषराज्यस्योपहत्य पृषराज्यस्येति पृषदराज्यस्य उपहत्यत्रिः उपहत्येत्युपहत्य त्रिष्पृक्षति पृच्छति श्रुतम् श्रुतगुंहवी हवीतः त्रिशत्या हि त्रिषद्या इति त्रि सत्याः हि देवाः देवायः यो श्रुतम् अश्रुतम् श्रुतम् आहसः स येन सा येन वै प्राणापानाविति प्राणापालौ वा एतौ एतौ पशूनाम् अशूनान्यत् यत्पृषदाज्यम् त्रिषराज्यम् पशोः पृषदाज्यमिति पृषत पशो खलु खलु आलब्धस्य हृदयम् आलब्धस्येत्यालब्धस्य हृदयमात्मा आत्माभि अभिसम् समेति एति यत् यत्पृषदाज्येन पृषदाज्येन हृदयम् पृषदाज्येन यदि पृषदाज्येन हृदयमभिघारयति अभिघारयत्यात्मन् अभिघारयतीत्यभिघारयति आत्मन्नेव एव पशूनाम् पशूनाम् प्राणापानौ प्राणापानौ दधाति प्राणापाना प्राणापालौ दधाति पुशुराः देवाः देवाः सुवर्गम् स्वर्गम् लो स्वर्गमिति आयन्ते ते अन्य अमन्यष्याः अनुष्यानः नोन्वा भविष्यन्ति अन्वा भविष्यन्तीति अन्वा भविष्यन्तीत्यन् वा भविष्यन्ति इति तस्य तस्य शिरः शिरः श्रुत्वा श्रुत्वा मेधुम् सः सप्रक्षः प्रक्षो भवत् अभवत्तत् तत्प्रक्षस्य प्रक्षस्य प्रक्षत्वम् प्रक्षत्वम् यत् प्रक्षत्वमिति प्रक्षात्वम् यत्प्लक्षशाखा प्लक्षशाखोत्तरबर्हिः प्लक्षशाखेति प्लक्षा शाखा उत्तरबर्हिर्भवति उत्तरबर्हिरित्युत्तराः भवति समेधस्य समेधस्यैव समेधस्येति समेधस्य एव पशोः पशोरवम् न्द्रे चन्द्रेन्दरायूपम् यूपम् चाहवनीयम् आहवनीयम् च आहवनीयमित्याहवनीयम् च हरति हरति रक्षसाम् रक्षसामवहत्यै अवहत्यै पशोः अवहत्या इत्यपाहत्यै पशोर्वै आलब्धस्य आलब्धस्य मनः नु अवदीय ब्रूहिति इत्याह मनः मन एव एवास्य अस्याव अवरुन्धे वृन्ध एकादश एकादश अवदानानि अवदानान्यव अवदानानीत्यवदानानि अवद्यदश दशवै वै पशोः पशोः प्राणाः प्राणा आत्मा प्राणा इति आत्मैकादशः एकादशो यावान् यावानेव एव पशुः पशुस्तस्य तस्या वा अवद्यति यदिहृदयस्य हृदयस्याग्रे अग्रेव अवद्यति यद्यथ अथ जिह्वायाः जिह्वायाथ अथ पक्षसः यद्वै वै हृदयेन हृदयेनाभिगच्छति अभिगच्छति तद् अभिगच्छति इत्यभिगच्छति तज्जिह्वयाः जिह्वया वदति वदति यज्जिह्वयाः जिह्वया वदति वदति तद् तदुरसः उरसोऽधि अधिनिः निर्वदति वदति एतद्वै वै पशोः पशोर्यथा पूर्वम् यथा पूर्वम् यथा पूर्वमिति यथा पूर्वम् यस्यैवम् एवमवदाय अवदाय यथा कामम् अवदाय इत्यपादाय यथा काममुत्तरेषाम् यथाकाममिति यथा कामम् उत्तरेषामपद्यति उत्तरेषामित्युत्तरेषाम् अवद्यति यथा पूर्वम् अवद्यति यथा पूर्वमेव यथापूर्वमिति यथापूर्वम् एवास्य अस्य पशोः पशोरवर्तम् अवर्तम् भवति भवति मध्यदः मध्यतो बुधस्य बुदस्या वा यदि मध्यदः मध्यरो हि यदि प्राणः प्राण उत्तमस्य प्राण इति प्राणः उत्तमस्या वा उत्तमस्य यद्युदौत्तमस्य अवर्जलि यद्युत्तमः उत्तमो हि उत्तम इत्युदौत्तमः ये प्राणः प्राणो यदि प्राण इति प्राणः यदीतरम् इतरम् यदि यदीतरम् इतरमुभयम् उभयमेव ए वाजामि जामि जायमानः जायमानो वै वै ब्राह्मणः ब्राह्मणस्त्रिभिः त्रिभिरृणवा त्रिभिरित्रिभिः ऋणवाजायते ब्रह्मचर्येण ब्रह्मचर्येण ऋषिभ्यः ब्रह्मचर्येणेति ब्रह्मचर्येण ऋषिभ्यो यज्ञेन ऋषिभ्यै ऋषिभ्यः यज्ञेन देवेभ्यः देवेभ्यः प्रजया प्रजया ऋषुभ्यः प्रजयेरिति प्रजया पितृभ्य एषः पितृभ्यैति पितृभ्यः केशवै वा नृणः अनृणोयः यः पुत्री पुत्री यज्वा यज्वा ब्रह्मचारिवासी ब्रह्मचारिवासी तत् ब्रह्मचारीवासीति ब्रह्मचारीवासी अथवधानैः अवधानैरेव अवधानैरित्यपादानैः एवाव अपदेते यजदेतत् तदवधानानाम् अवधानानामवधानत्वम् अवधानानामित्यवादानानाम् अवधानत्वम् देवासुराः अवधानत्वमित्यवदानात्वम् देवासुराः संयत्ताः देवासुरा इति देव असुराः संयत्ताः सन् संयत्ता इति संयत्ताः ते देवाः देवा अग्निम् अग्निमब्रुवन् अब्रुवन्तयाः तया वीरेण वीरेणासुरान् असुरानभि अभिभवाम भवामेति इति सः सोऽब्रवीत् अब्रवीत् वरम् वरम् ऋणैपशोः पशोरुद्धारम् उद्धारवत् उद्धारमित्युदहारम् उदहरै हरा इति सः स एतम् एतमुद्धारम् उदहरत अहरततोः दोः पूर्वार्धस्य पूर्वार्धस्य गुदम् पूर्वार्धस्य यदि पूर्वार्धस्य गुदम् मध्यतः मध्यतश्रोणिम् श्रोणिम् जघनार्धस्य जघनार्धस्य ततः जघनार्धस्य यदि जघनार्धस्य ततो देवाः देवाभवन् अभवन्वराः परासुराः असुरा यत् यत्त्र्यङ्गाणाम् त्र्यङ्गाणागम् समवद्यति त्र्यङ्गाणामिति त्र्यङ्गानाम् समवद्यति भ्रातृव्या समवद्यते इति सम्भवद्यै भ्रातृव्याभिभूत्यै भवति भ्रातृव्याभिभूत्या इति भ्रातृव्याभिभूतिः भवत्यात्मना आत्मना परा परास्य अस्य भ्रातृव्यः भ्रातृव्यो भवति भवत्यक्ष्णया रक्षया वा अपद्यति इति तस्मात् तस्मादक्ष्णया रक्षया वशवः अशवाङ्गानि अङ्गानि प्रहरन्ति हरन्दि प्रतिष्ठित्यै प्रतिष्ठित्या इति प्रतिष्ठित्यै मेधसा शृचौ शुचौ प्रा प्रोर्णोति पूर्णो ति मेधोरूपाः मेधोरूपा वै मेधोरूपा त्रिमेधः रूपाः वै पशवः पशवो रूपम् रूपमेव एव पशुषु पशुषु धारिधान् यूर्षणवधाय अवधायप्र अवधायेत्यवधाय प्रोर्णोति पूर्णोति रसः रसो वै वा एष एष पशूना पशूनायद्यूः यूरसम् रसमेव एव पशुषु पशुषु दधाति पार्श्वेन पार्श्वेन वसा होमम् रसाहोमम् रसाहोममिति वसा होमम् प्रयोधि यौतिमध्यम् मध्यं वै वा यत् एषत्पशूनाम् पशूनाम् पार्श्वम् रसः रस एषः एष पशूनाम् पशूनाङ्गल् यद्वसा रसाय यत्पार्श्वेन पार्श्वेन वसा होमम् वसाहोमम् प्रयोति वसाहोममिति वसाहोमम् प्रयोति मध्यतः प्रयोतीति प्रायौति मध्यत एवमशूनाम् अशूनागमरम् रसन् दधाति दधाति ध्वेन् वै वा एतत् एतद्वशम् यत्सञ्जन्ति सं न्यपयन्त्यैन्द्रः न्यपयन्तीति ऐन्द्रः खलु खलु वै वै देवतया देवतया प्राणः प्राण प्राण इति प्राणः ऐन्द्रोपानः अपान ऐन्द्रः अपानैत्यपानः ऐन्द्रः प्राणः प्राणो अङ्गे अङ्गे प्राण इत्याह आह प्राणापानौ प्राणापानावेव प्राणापानाविति प्राणापानौ एव ेव देवत्पष्टः पृष्टर्भूरि भूरि ते सकुंसम् सकंसमे तु सकंसमिति सं हेत्वि इत्याह आह त्वाष्ट्राः त्वाष्ट्राहि हि देवतया या, देवत वशवः पशवो विशरूपाः विषरूपायत् विशरूपा इति यत्सलक्ष्माणः सलक्ष्माणो भवतः सलक्ष्माण इति स इत्याह आह विषरूपाः विषरूपा विशुरूपा इति ह्येते हे ते सन्दः सन्दः सलक्ष्माणः सलक्ष्माण एतर्हि सलक्ष्माण इति सा लक्ष्माणः एतर्हि देवत्रा देवत्रायन्तम् देवत्रेति देवात्रा यन्तमवसे अवसे सखायः सखायो नु अनुत्वा माता मातापितरः पितरो मदन्तु मदन्त् इति इत्याह आहानुमतम् अनुमतमेव अनुमतमित्यनुमतम् एवैम् एनम् मात्रा मात्रापित्रा पित्रास्वर्गम् स्वर्गलोकम् स्वर्गमिति स्वहायम् स्वर्गम् गमयति गमयत्यर्धर्चे अर्धर्चे वसाहोमम् अर्धर्च इत्यर्धारुचे वसाहोमम् जुहोति वसाहोममिति वसाहोमम् जुहोत्यसौ असौ वै वानर्धर्चः अर्धर्च इयम् अर्धर्च इमे इतिमे एवर्सेन रसेनानक्ति अनक्तिदिशः इषो जुहोदि जुहोदिशः इष एव येवर्षेन रसेनानक्ति अनत्यसोः रथो दिग्धः रथो इत्यसोः दिग्ध एव लिग्ध्व इति दिग्भ्यः एवोर्जम् ऊर्जुम् रसम् वा अवरुन्धे वृन्धे एतौ एतौ पशूनाम् पशूनाम् यद् यत्पृषराज्यम् वृषराज्यम् वा नस्पत्याः वृषराज्यमिति पृषद् आज्यम् वा नस्पत्याः खलु खलु वै वै देवतया देवतया वृषवः पशवो यद् यत्पृषराज्यस्य वृषराज्यस्योपहत्या वृषराज्यस्येतिपृषदराज्यस्य वहत्याः वहत्येत्युवहत्या आहवनस्पतये अनस्पतयेनुब्रूहि ब्रूहि वनस्पतये इष्यति प्राणापानौ प्राणापानामेव प्राणापानामिति प्राणापालौ एव पशुषु पशुषु दधाति दधात्यन्यस्यान्यस्य अन्यस्या अन्यस्या अन्यस्या अन्यस्य समवत्तम् समवद्यतिरि समवद्धमिति समवद्धम् समवद्यति तस्मात् समवद्यतीति समवद्यतिरि तस्मान्नारूपाः नानारूपाः पशवः नानारूपाः इति नानारूपाः जोष्णोप उपसिञ्चति सिञ्चति रसः रसोऽपि वा एष एष पशूनाम् पशूनाञ् यद्यूः यूरसं रसमेव एव पशुषु पशुषु दधाति दधाति इडाम् इडामुप उपह्वयते पशवः पशवोऽपि वा इडाः पशूनेवयते क्षयदे चतुष्पादः चतुष्पादो हि चतुष्पादृषुः पशवः पशवोऽयम् यम् कामयेत कामयेदशः पशुः स्यात् स्यादिरि इत्यमेदस्कम् अमेधस्कन्दस्मै अमेधस्कमित्यमेधः मेदोरूपा वै मेदोरूपाः वै पशवः पशवो रूपेण रूपेणैव एवम् एनम् पशुभ्यः पशुभ्योनिः पशुभ्य इति पशुभ्यः निर्भजते भजत्यपशु पशुवेव एव भवति भवति कामयेत कामयेत् पशुमान् पशुमानिति पशुमान् स्यादि इति मेधस्वत् मेधस्वत्तस्मै तस्मा आदध्यान्ध्यान्मेधोरूपाः मेधोरूपा वै मेदोरूपा इति मेधः रूपाः वै पशवः पशवो रूपेण रूपेणैव एवास्मै तस्मै पशून् पशून्व अपरुन्धे वृन्धे पशुमान् पशुमानेव पशुमानिति पशुमान् एव भवति भवति प्रजापतिः प्रजापतिर्यज्ञम् प्रजापतिरति प्रजापतिः असृजदसः स आज्यम् आज्यम् वृहस्तात् वृहस्तादसृजत असृजदशम् पशुम् मध्यदः मध्यदस्पृषदाज्यम् वृषराज्यम् पृश्चात् वृषराज्ये पृषदराज्यम् पश्चात् तस्मात् तस्मादाज्येन आज्येन प्रयाजाः प्रयाजा युज्यन्ते प्रयाजा इति प्रयाजाः युज्यन्ते वशुनाः पशुनामध्यरः मर्ध्यदः पृषदाज्येन वृषराज्येनानुयाजाः वृषराज्येनेति पृषदराज्येन अनुयाजास्तस्मात् अनुयाजादित्यनुयाजाः तस्मादेतत् एतन्मिश्रम् मिश्रमिव अनुपश्चात्सृष्टम् पश्चात्सृष्टगं हि पश्चात्सृष्टमिति पश्चात्सृष्टम् एकादश एकादशानुयाजान् अनुयाजान् यजति अनुयाजान् इत्यनुयाजान् यजति दश दश वै वै पशोः पशोः प्राणाः प्राणात्मा प्राणादि प्राणाः एकादशो यावान् यावानेव एव वृषो वृषस्तम् अनो अनु यजति यजदि घन्ते घन्दि वै वा एतत् एतद्वृशम् प्रशङ्णाबालौ जपयन्ते प्राणापालौ खलु प्राणापालाविति प्राणापालौ खलु वै वा एतौ एतौ पृषोरा वृषोराञ्जद् यत्पृषदाज्यम् पृषदाज्यञ्जत् पृषदाज्यमिति पृषदराज्यम् यत्पृषदाज्येन पृषराज्येन अनुयाजानृषराज्येन यदि पृषदराज्येन अनुयाजान् इत्यनुयाजान् यत् प्राणावानौ प्राणावानामेव प्राणावानामिति प्राणावानौ एव पशुषु पशुषु दधाति दधातीति दधाति ओष्ठकाण्डे तृतीयः